युधिष्ठिर उवाच इहयत्तैर्निराकारैर्वस्तव्यमिति रोचये अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः यदि विन्देत चाकारमस्माकं स पुरोचनः क्षिप्रकारी भूत्वा प्रदह्यादपि हेतुतः नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः तथा हि वर्तते मन्दः सुयो अपिचेह स्थितः अपि चेह प्रदग्धेषु भीष्मोऽस्मासु कोपं कुर्यात् किमर्थं को वा कौरवान् कोपवीतसः अथवा पीह दग्धेषु भीष्मोऽस्माकं धर्म इत्येव कुप्येरन् येचान्ये चान्ये वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि स्पर्शैर्निर्घातयेत्सर्वान् राजलुब्धः सुयोधनः अपदस्थान् पदे तिष्ठन्नपक्षान् पक्षसंस्थितः हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् तदस्माभिरिमम् पापम् तम् च पापम् सुयोधनम् वञ्चयद्भिर्निवस्तव्यम् छन्नावासम् क्वचित् क्वचित् ते वयं मृगया शीलाश्चरामवसुधामिमां तथा नो विदिता भविष्यन्ति पलायतां भौमं च विलमद्यैव करवामसुसंवृतं गूढश्वासान्ननस्तत्र हुताश सम्प्रधक्ष्यति वसतेऽत्र यथा चास्मान्न बुध्येत पुरोचनः पौरो वापि जनः कश्चित् तथा कार्यमतन्ध्रितैः इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि भीमसेनयुधिष्ठिरसंवादे पञ्चचत्वारिंशदधिकशतमोऽध्यायः